श्रीहरये नमः अष्टमस्कन्दः अथ प्रथमोऽध्यायः राजोवाच स्वायं भुवस्येकगुरो वंशोऽयं विस्तराश्रुतः यत्र विश्वसृजां सर्गो मनोऽन्यान् वदस्वनः यत्र यत्र हरेर्जन्मकर्माणि च महीयसः गृणन्ति कवयो ब्रह्मन्तानि नो बतशृण्व यत्यस्मिन्नन्तरे ब्रह्मन् भगवान् विश्वभावनः कृतवान् कुरुते कर्ता ह्यतीते नागते द्यवान् ऋषिर्रुवाच व्यतीता षट्कल्पे स्वायम्भुबाधयः आद्यस्ते कथितो यत्र देवादीनां च सम्भवः आकूत्यां देवहूत्यां च दुहित्रौस्तस्य वै धर्मज्ञानोपदेशार्थं भगवान् पुत्रतां गतः कृतं पुरा भगवतः कपिलस्यानुवर्णितम् आख्यास्ते भगवान् यज्ञो यच्चकार कुरुद्वः विरक्तकामभोगेषु सतरूपापतिः प्रभुः विसृज्य राज्यं तपसे सभार्यो वनमाविशत् सुनन्धायां वर्षतं पदैकेन भुवं स्पृशन् तप्यमानस्तपो घोरम् इदम् अन्वाकभारत मनुरुवाच येन चेतये विश्वं विश्वं चेतयतेन यो जागर्ति सयानेऽस्मिन् नायं तं वेदवेदसः आत्मावास्यमिदं विश्वं यत्किञ्चिज्जगत्यां जगत् तेन त्यक्तेन पुञ्जीता मा कृतकस्य स्विद्धनं पश्यन्ति पश्यन्तं चक्षुर्यस्य न ऋष्यते तं भूतनिलयं देवं सुपर्णम् उभधावत न स्याद्यं तौ मध्यं च स्वपरो नान्तरं बहिः विश्वं च तदृतं महत् स विश्वकायः पुरुहूतयीश सत्यस्वयं ज्योति अजः पुराणः जन्माद्य जयात्मशक्त्या विद्ययोधस्य निरीह आस्ते अधाग्रे रुषयः कर्माणि हन्ते कर्म हेतवे ईहमानो हि पुरुषः प्रायो नीकां प्रभ्यते ईहते भगवान् ईशो न तत्र विषजते आत्मलाभेन पूर्णार्थो नावसीदन्ति येनुतं तमीहमानं निरहङ्कृतं भुतं निराशिषं पूर्णम् अनन्यचोदितं निरुन्शिक्षयन्तं नि निजवर्तमसंस्थितं प्रभुं प्रभद्ये किल इति मन्त्रोपनिषदं व्याहरन्तं समाहितं दृष्ट्वा सुराया दुधा जक्तुम जक्तुम् अभ्यद्रवन् क्षुधा तान्स्तथा अवसितान् वीक्ष यज्ञः सर्वगतो यामै परिवृतो देवैर्हत्वा सा सत्त्रिविष्टपं स्वारोचिषोद्वीति यस्तो मनुरग्ने प्रमुखास्तस्य तत्र इन्द्रो रोचनस्त्वासिद्धेवाश्चतुषिदादयः ऊर्जस्तम्भातयः सप्त ऋषयो ब्रह्मवादिनः ऋषेस्तुवेतशिरसस्तुषितानां नाम पन्यभूत् तस्यां यज्ञे ततो देवो बिभुरुति अभिविश्रुतः अष्टाशीतिसहस्राणि मुनयो ये धृतौ व्रताः तस्य कौमारब्रह्म चारिणः तृतीयमुत्तमो नाम प्रियव्रतसुतो मनुः पवनश्रुजयो यज्ञहोत्रात्यास्तत्सुता नृप वसिष्ठतनया सप्तऋषयः प्रमदादयः सत्यावेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित धर्मस्य सुनृतायां तु भगवान् पुरुषोत्तमः सत्यसेन इति ख्यातो जातः सत्यव्रतैः सखां सोऽनृधव्रधत्तुशीलान् असतो यक्षराक्षसान् भूदद्रुहो भूतगणान्स्त्वबधीत् सत्यजित्सखाम् चतुर्थ उत्तमभ्रात मनोर्नाम्ना च तामसः पृथुःख्यातिर्नरकेतुर्ध्या ध्या दशतत्सुताः सत्यकाहर यो ज्योतिर्धामादयः सप्तऋषयस्तामसेऽन्तरे देवावैत्रुतयो नाम वितृतेस्तनया नष्टाकालेन यैर्वेदा विद्रुता स्वेन तेजसान् तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः हरिहृद्याहृतो येन गजेन्द्रो मोचितो ग्रहात् राजोवाच भातरायण एतत् ते श्रोतुमिच्छामहे वयं हरिर्यथागजपतिं ग्राहग्रस्तम् अमुचत् तत्कथासुमहत्पुण्यं धन्यं स्वस्ययनं शुभं यत्र यत्र उत्तमश्लोको भगवान् गीयते हरिः सूतौ परीक्षितैवं सधुबाधरायणी प्रायोपविष्टेन कथा सुचोदितः उवाच विप्रा प्रदिनन्त्यपार्थिवं मुदा मुनीनां सतसि स्म शृण्वता इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् अष्टमस्कन्ते प्रथमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहाराजिके जयम्